अथ त्र्यशीतम् दशकम् रामेऽथ गोकुलगते प्रमदा प्रसक्ते हूतानुपेतयमुना दमने मदान्धे स्वैरं समारमति सेवकवाद मूढो न्ययुङ्क्त तव पौण्ड्रकवासुदेवः नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि उत्सृज्य तानि शरणम् दूतो जगाद सकलैर्हसितः सभायाम् दूतेऽ यातवति यादव सैनिकैस्त्वम् यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् पापेन वक्षसि कृताम् कमनल्पमूल्य श्रीकौस्तु किरेन सुदर्शनेन, चकर्तिथ काला नलोत्क सुदर्शन शीर्षक ममर्दी चास्त्र काशिपशिरोकर्थ काश्य जाल्यन बाहमे श्रीवासुदेढ़िंसुज्यम भवदक्य ध्यान क्य सुत कथमे काशीश्वरस्य तनयोथः सुदक्षिणाख्यः शर्वम् प्रपूज्य भवते विहिताभिचारः कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् तालप्रमाणचरणामखिलाम् दहन्तीम् कृत्याम् विलोक्य चकितैः कथितोऽपि पौरैः द्यूतोत्सवे किमपि नो चलितो विभो त्वम् पार्श्वस्थमाशु विससर्जित कालचक्रम् अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या रोषात् सु दक्षिणमदक्षिण चेष्टितम् तम् पुप्लोषचक्रमपि काशिपुरीमदाक्षीत् स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तव तु कलया मृत्युम् नरकसचिवो देशक्लेशम् सृजन्नगरान्तिके झटिति हलिना युध्यन्नद्धा पपाततलाहतः साम्बम् कौरव्यपुत्री हरणनियमितम् सांत्वनार्थी यातस्तद्वाक्यरोषोद्धृतकरि नगरो मोचयामास रामः ते घात्याः पाण्डवेयैरिति यदुपृतनाम् नामुचस्त्वम् तदानीम् तम् त्वाम् दुर्बोधलीलम् पवनपुरपते तापशान्त्यै निषेवे इति त्र्यशीतम् दशकम्